गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् तर्टि व्यास उवाच किमनेन कृतं पूर्वं पुण्यं पापं च पद्मज एनायं मौषकं जन्म पापदेवस्य वाहतां क उवाच सम्यक् त्वयावत् स मनस प्रिय ब्रवीम सकलं तच्चिकमश्रृणु सुशिखरे रम्य सौभरेराश्रमो महां अभूद नानापक्षिगणा वसिष्ठाद्यामुनिगणा देवा इन्द्रपुरोगमाः आयन्ति सौभरस्तस्य दर्शनार्थं दिने दिने महत्तपो वृद्धिदीप्ते रत्यग्निरविते जसः क्या तस्य सर्वलोके निष्टस्य चेश्वरे तस्य पत्नी महाभागा मनो मयीति विश्रुता पतिव्रता सुसर्वा सुविख्याता भरुदुवल्लभा रम्यता दुरधेस्तस्याजिदा रम्यतया अखिला शचीप्रभृतयः सर्वा न प्रापुः कदाचित् सौभरिर्होमशालायां प्रादरुद्धितः कृत्वा होमं वनं यादः गृहेस्तिदा गृहे स्थिदा मनोमयी सुशीला गृहकार्यरता भवद तदा दुष्टस्तु गन्धर्वक्रौञ्च नाम समागतः विश्रान्तिरभवत्तस्य दृष्ट्वाश्रममनुत्तमं नानाशालासमाकीर्णं बहु चायं सुशीतलं यदादृशो रम्यतर आश्रमो यस्य स प्रभुः धन्यं जपस्तपस्तस्य क्षणेनायं सुखप्रदः चिरस्थानान्मुक्ते तस्यादित्युक्त्वा तद्गृहं ययौ ददर्शमुखचन्द्रं स मनोमय्या मनोरमं यस्या दर्शनमात्रेण हरोऽपि स्मरसाद्भवेत् तस्या कडाक्षपादेन मदनानिलविह्वल स बभूव तदा सक्रोदधार सहसा करे तत्करस्पर्शमात्रेण चकम्पेशा मुमूर्च्छ च मनोमयी शशाप भर्तृस्मरणतत्परा म्लानाच च शुष्कण्ठा च स स्वेदाक्षिस्रवज्जला बभूव परमोद्विघ्ना ममोह च शुशोच च कमद्यचरणं यामि दुष्कृतं न जन्मनिसं स्मरे किञ्चिदिह जन्मनि संस्मरे जन्मान्तरीयपापेन सुखदुःखमुपस्थितं दुष्टभावं तु तं ज्ञात्वा सान्द्वयन्त्यब्रवीदितम् अहं तुल्यादे जनकेन समोसिमे ज्ञानवानशि वर्तस्वगदत्रप पापि नो यान्ति नरकं वर्षकोटिगणान् बहून् तस्मान्मुञ्चमहाभाग कृपणां करिष्यामि प्राणत्यागं न श्रीहत्या दोषसम्भूतं पापं ते मम भर्ता महाभागो वनादायास्यदेधुना कस्य क्रोधा नलस्त्वां हि भस्मत्वं नेष्यदे क्षणाद विज्ञिति कार्यम कार्य मो चेवांस्म सात्कुषि च ब्रह्मणीं वद तु सौभरि समुपागतः। तं दृष्ट्वा स्वाङ्गणगदमध्याह्नरिविसन्निभं मुमोच तेजसा तत्र दर्शितो सौकरं तदा अधो पश्यच्च कम्पे सर्ज तदा चापं गन्धर्वं प्रति दुःसहं मुनिरुवाच असमक्षं यदो मे त्वं पत्नीं दर्शितवानसि असमक्षचरोमूढमूषकस्त्वं भविष्यसि चौरवत्पृथिवीदार्यं स्वोदरं पूरयिष्यसि प्रौञ्च उवाच नमया मया बुद्धिपूर्वं ते दर्शितेयं मनोमयी प्रसङ्गादभवत्सङ्गो दृष्ट्वे मां चाररूपिणीं करमात्रधृता चेयं तावत् त्वमपि दृष्टवान् तेजसा ते प्रपीतेन मया मुक्ता न कामुने अतोऽपराधं मेक्षन्तुमर्हसि त्वं कृपानिधे कुरुष्वानुग्रहं मह्यं शरणागतवत्सल अहं त्वां शरणं यामि कृपां गुरु त्रैलोक्ये नेदृशी दृष्टा अधिव्रत्यगुणान्विता मुनिरुवाचा प्लवदे सागरे मेरुरुदियात् पश्चिमे रविः न मे वचोऽन्यथा भूयाद्वग्निशीतत्वमाप्नुयाद अथापि प्रभ्रविद्म्यद्य दुष्टतच्छृणुसादरम् पराशरगृहे देवी द्वापरेऽवतरिष्यति गजानन इति ख्यातस्तस्य वाहत्वमेष्यसि तदा ब्रह्मादयो देव मानयिष्यन्ति सादरं तस्य हस्तगतस्वर्गं पुनरेष्यसि सत्वरम् एवमाकर्ण्य तद्वाक्यं दुःखर्षसमन्विदः क उवाच पपादपृथिवी पृष्ठे महामोषकरूपधृकपराशरस्याश्रमे दुत्वा परे महाबलो महावीर्यो महापर्वतसन्निभः मुनेराशीर्बलेनासौ गजाननसमीपगः अभवद्वाकरूपेण मूषकोऽसौ महाबलः एतत्ते कथितं सर्वं यन्मे पृष्ठं त्वयानख गजाननस्य वाकत्वमूषकस्य यथा भवद मुनिरुवाच सिन्धूरस्य वधं ब्रह्मन् कथं स कृतवान्विभुः गणेशस्तन्ममाचक्ष्व विस्तारा च दुरानना श्रुत्वा वाचो न मे तृप्तिर्जायते मृतपानवद भक्त्या शृणोमि देवेश सर्वज्ञस्त्वं वदस्वमे इति श्रीगणेशपुराणे क्रीडाखण्डे क्रौञ्च शापवर्णनं नाम पञ्चत्रिशोत्तरशततमोऽध्यायः ओम्